नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे पुरुषोत्तमविज्ञप्तिर्नाम षष्ठोऽध्याय नारद उवाच वैकुण्ठाधिपतिर्गत्वा गोलोकं किञ्चकारहन् वदस्व कृपां कृत्वा मह्यं शुश्रूषभेनघ श्रीनारायण उवाच श्रृणुनारद शृणुनारदवक्षेऽहं यज्जातं तत्र तेनघ विष्णुर्गोलोकमगमत् अधिमासेन संयुतः तन्मध्ये भगवद्धाम मणिस्तम्भैः सुशोभितम् ददर्श दूरतो विष्णुर्ज्योतिर्धामनोहरं तत्तेजः पिहिताक्षोऽसौ शनैरुन्मील्यलोचनी मन्दं मन्दं जगामाधि मासं, जगा मासं कृत्वा स्वपृष्ठतः उपमन्दिरमासाद्यं साधिमासो मुदान्वितः उत्थितैर्द्वारपालैश्च वन्दितां गृर्हरिशनैः प्रविष्टो भगवद्धाम शोभासम्मुष्टलोचनः तत्र गत्वा ननामाशु श्रीकृष्णं पुरुषोत्तमम् गोपिका वृन्दमध्यस्थं नो वाचरमानाथो बद्धाञ्जलिपुटः पुरः श्रीविष्णुरुवाच वन्दे विष्णुं गुणातीतं गोविन्दमेकमक्षरम् अव्यक्तमव्ययं व्यक्तं गोपवेशविधायिनं किशोरवयसंशान्तं गोपीकान्तं मनोहरं। नवीननीरदश्यामं कोटिकन्दर्पसुन्दरं वृन्दावनवनाभ्यन्ते रासमण्डलसंस्थितं लसत्पीतपटं सौम्यं त्रिभङ्गलिताकृतिं रासेश्वरं रासवासं रासोल्लाससमुत्सुकं द्विभुजं मुरलीहस्तम् पीतवासदमच्युतम् इत्येवमुक्त्वा तं न त्वां रत्नसिंहासने वरे पार्षदैः सत्कृतो विष्णुः स उवास